नारायणीयं दशकं ट्वेण्टि सेवेन् मीटर् प्रहर्षिणि दुर्वासासुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूयः नागेन्द्रप्रतिमृदिते शशापशक्रं काक्षान्दिस्त्वदितरदेवतां शजानाम् शापेन प्रधिदजरेध नर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु सर्वाध्याकमलजमेत्य सर्वदेवा निर्वाणप्रभव समम् भवन्तमापुः ब्रह्माद्यै स्तुतमहिमाचिरं प्रादुष्यन्वरद पुरः धाम्ना mm. हे देवादिभिचकुलैर्विधाय सन्धिं पीयूषं परिमथतेदि पर्यशास्त्वं सन्धानं कृतवदि दान वै सुरौखे मन्धानं नयदि मदेन मन्दराद्रिं भ्रष्टेऽस्मिन् बदर मिवोद्वहन् खगेन्द्रे सद्यस्त्वं विनिहितवान् पयः पयोधौ आधाय द्रुतमधवासु किं वरत्रां पाधोद्धौ विनिहितसर्वबीजले जा प्रारब्धे मधनविद्धौ सुरासुरैस्तैर्व्याजात्वम् भुजगमुखे करोः सुरारीन् क्षुब्धाद्रौ क्षुभितजलोदरे खुद्धा तदानीं दुग्धाब्धौ गुरुतरभारदो निमग्ने देवेष्ुव्यधिततमेषु तत्प्रियैषी प्राणायैषी कमठतनुं कठोरपृष्टाम् वज्रादिस्थिरतरकर्परेण विष्णो विस्तारात्परिगदलक्षयोजनेन अम्भोधे कुहरगदेन वर्ष्मणत्वं निर्मग्नं क्षिदिधरनाथमुन्निनेथ उन्मग्ने चडिदि तदा धरा निर्मेधुर्दृम सर्वे आवश्यणे सर्पराजेश्यं परशमय नवीधस्ता उम भ्रमण जवोन्नम गिरीगस्रतरहकज्वा अभ्रांद विधि गिरीशादय प्रमोदा प्रमोदादुद्भ्रान्ता नुनु गुरुपात पुष्पवर्षाः दैत्यौखे लेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते कारुण्यात्तव किल देव वारिवाहाः दैत्यसङ्खान् उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले तत्राब्धौ चिरमधितेऽपि निर्विकारे एकस्त्वं करयुगकृष्टसर्पराजः सम्राजन् पवनपुरेश्य पाहि रोगाद